अथ द्वितीयः सर्गः तम् तु शोकपरिद्योनम् रामम् दशरथात्मजम् उवाच वचनम् श्रीमान् सुग्रीवः शोकनाशनम् किम् त्वया तप्यते प्राकृतस्तथा मैवम्भूस्त्यज सन्तापम् कृतघ्न इव सौहृदम् सन्तापस्य च ते स्थानम् पश्यामि राघवा प्रवृत्तामुपलब्धायाम् ज्ञाते चनिलये रिपोह। रिपोः मतिमाञ्छास्त्रभिप्राज्ञः पण्डितश्चासि राघवा त्यजे माम् प्राकृताम् बुद्धिम् कृतात्मेवार्थदूषिणीम् समुद्रम् लङ्घयित्वा तु महानक्रसमाकुलम् लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् निरुत्साहस्य धीरस्य शोकपर्याकुलात्मनः सर्वार्था व्यवसीदम् दिव्यसनम् चाधिगच्छति इमे शूराः समर्थाश्च सर्वतो हरियूथपाः त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् येषाम् हर्षेण जानामि तर्कश्चापि दृढो मम विक्रमेण समानेष्ये सीताम् हत्वा यथा रावणम् पापकर्माणम् तथा त्वम् कर्तुमर्हसि सेतुरत्र बध्येद्यथा पश्येमताम् पुरीम् तस्य राक्षस राजस्य तथा त्वम् कुरु राघव दृष्ट्वा हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् च रावणम् युद्धे दर्शनादवधारय अबद्ध्वा सागरे घोरे च वरुणालये लङ्कान्न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः सेतुबन्धः समुद्रे च यावल्लङ्का समीपतः सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय इमे हि समरे वीराहरयः कामरूपिणः तदलं विक्लवाम् बुद्धिम् राजन् सर्वार्थनाशिनीम् पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः यत्तु कार्यम् मनुष्येण शौटीर्यमवलम्ब्यताम् तदलङ्करणायैव कर्तुर्भवति सत्वरम् अस्मिन् काले महाप्राज्ञसत्त्वमातिष्ठतेजसा शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् विनष्टे वा प्रणष्टे वा तत्वं बुद्धिमताम् श्रेष्ठः सर्वशास्त्रार्थको विदः मद्विधैः सचिवैः सार्धमरिञ्जेतुम् समर्हसि न हि पश्याम्यहम् कञ्चित् त्रिषु लोकेषु राघवा गृहीतधरुषो यस्ते तिष्ठेदभिमुखो रणे वानरेषु समासक्तम् न ते विपत्स्यते अचिरा द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् तदलंशोक क्रोधमालूपते निश्चे क्षत्रिया मंदे चंड बिभ्यती लघनाथोर समुद्रा नदीपते सहस्माहोपेत सूक्ष्मिर्चार लिते त्र तैस् सैन्यजितिनुर्वर्ण मे सैन्य जितनेवधार्यता इमे हि हरयः शूराः समरे कामरूपिणः तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः कथञ्चित्परिपश्यामि लङ्घितम् वरुणालयम् हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हणा किमुक्त्वा बहुधा चापि सर्वथा विजयीभवान् निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति शे श्रीमद्राणे वाल्मीकए आदि का्युद्धकांडे द्वितय सर्ग